भावनो भावनोपनिषत् स्वाविद्यापततत्कार्यम् श्रीचक्रोपरिभासुरम् बिन्दुरूपशिवाकारम् रामचन्द्रपदम् भजे ॐ भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेमदेवहृदय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः शान्ति शान्तिः शान्तिः अध भावनोपनिषत् हरिः ओम् आत्मानमखण्डमण्डलाकारमवृत्य सकलब्रह्माण्डमण्डलम् स्वप्रकाशम् ध्यायेद ॐ श्रीगुरुः सर्वकारणभूताशक्तिः तेन नवरन्ध्ररूपो देहः नवशक्तिरूपं श्रीचक्रं वाराही पितृरूपा कुरुकुल्ला बलिदेवता मादा पुरुषार्थासागराः देहो नवरत्नद्वीपः त्वदिसप्तधादुभिरनेखैः संयुक्ताः सङ्कल्पा कल्पतरवः ते जकल्पकोद्यानम् रसनया भाव्यमाना मधुराम्लतिकृतकडुकषाय लवणभेदा षड्रसा षडृदभक्रियाशक्तिः पीठम् कुण्डलिनीज्ञानशक्तिर्गृहम् इच्छाशक्तिर्महात्रिपुरसुन्दरी ज्ञादाहोधा ज्ञानमग्निर्ज्ञेयं हविः ज्ञादृज्ञानज्ञेया नामभेदभावनं श्रीचक्रपूजनं नियदिसहिता शृङ्गारादयो नवरसा अणिमादयः कामक्रोधलोभमोह मदमात्सल्य पुण्यपापमया ब्राह्म्याद्यष्टशक्तयः आधरनवकम् मुद्राशक्तयः पृथ्व्याप्तेजो वायुवाकाश्रोत्रत्वक्चक्षुर्जिह्वाक्राण मनो वाक्पाणिपादपायूपस्थमनो विकारा षोडशशक्रयः वचनादानगमनविसर्गानन्दहानोपेक्षाबुद्धयोनङ्गकुसुमादिशक्रयोष्ठौ अलम्बुसा कुहुर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी पूषा सरस्वतीडा पिङ्गला सुषुम्ना चेदि चतुर्दशनाड्यः सर्वसङ्क्षोभिन्यादि चतुर्दशारगादेवताः प्राणापानव्यानोदान समान नागकोर्मकृकरदेवदत्त धनञ्जया इति दशवायवः सर्वसिद्धिप्रदा देव्यो बहिर्दशारगादेवताः ये दद्वायुदशक संसर्गोपाधिभेदेन रेचकपूरक शोषक दाह दाहप्लावक इति प्राणमुख्यत्वेन पञ्चधोऽस्ति क्षारको दारकः क्षोभको मोहको दृम्भग इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति तेन मनुष्याणाम् मोहको दाहको भक्ष्यभोज्यशोष्यलेह्य पेयात्मकं चतुर्विधमन्नम् पाचयति येता दशवह्निकला सर्वज्ञत्वाद्यन्तर्दशारगा देवताः शितोष्णसुख दुःखेच्छा सत्वरजस्तमो गुणा वशिन्यादिशक्तयो शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्च पुष्पबाणा मन इक्षुधनुः वश्यो वाणो रागः पाशः द्वेषोऽङ्गुशः अव्यक्त महत्तत्त्वमहदहङ्कार इति कामेश्वरी वज्रेश्वरी भगमालिन्योऽस्त्रिकोणाग्रका देवताः निरुपाधिकसंविदेव कामेश्वर सदानन्दपूर्णस्वात्मेव परदेवता ललिता लौहित्यमेतस्य सर्वस्य विमर्श अनन्यचित्तत्वेन च सिद्धिः भावनाया क्रिया उपचरः अहं त्वमस्ति नास्ति कर्तव्यमकृतव्यमुपासितव्यमिति विकल्पानामात्मनि विलापनम् होमः भवना विषयाणामभेद भवनादर्पणम् पञ्च दशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्च दशनित्याः श्रद्धानुरूपा धीर्देवता तयोः कामेश्वरी सदानन्दकना परिपूर्णस्वात्मैक्यरूपा देवता सलिलमिति लौहित्यकारणं सत्त्वं कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः अस्ति नास्तीति कर्तव्यतानोपचारः बाह्याभ्यन्धकरणानाम् रूपग्रहणयोग्यतास्त्वित्याग्वाहनम् तस्य बाह्याभ्यन्धकरणानामेकरूपविषयग्रहणमासनम् रक्त शुक्ल पदैकीकरणम् पाद्यम् उज्ज्वलता मोदानन्दासनदानमर्घ्यम् स्वच्छं स्वदःसिद्धमित्या चमनीयम् चिच्चन्द्रमयीदि सर्वाङ्गश्रवणम् स्नानम् चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् प्रत्येकं सप्त विंशतिधा भिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्दुब्रह्मनाडीब्रह्मसूत्रम् स्वव्यतिरिक्तवस्तु सङ्गरहितस्मरणाम् विभूषणम् सच्चित्सुखपरिपूर्णतास्मरणं गन्धः समस्त समस्तविषयाणां संधानं कुसुमं तेषामेव सर्वदा स्वीकरणं धूपः पवनावच्छिन्नोध्वज्ज्वलनसच्चिदुःकाशदेहो दीपः समस्तयादायादवर्ज्यं नैवेद्यम् अवस्थात्रयाणामेकीकरणं ताम्बूलम् मूलाधारादा ब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तम् गदागदरूपेण प्रादक्षिण्यम् तुर्यावस्था नमस्कारः देहशून्यप्रमादृदा निमज्जनम् बलिहरणम् विलापनं होमः स्वयम् तत्पादुका निमज्जनम् परिपूर्णध्यानम् एवम् मुहूर्तत्रयम् भावना परो जीवन्मुक्तो भवति स एव शिवयोगीति गद्यते आदिमदेनान्दश्चक्रभावनाः तस्य देवधात्मैक्यसिद्धिः चिन्तितकार्याण्ययत्नेन सिद्ध्यन्ति स एव शिवयोगीति कथ्यते कादिहादिमदोक्तेन भावना प्रतिपादिता जीवन्मुक्तो भवति य एवं वेद इत्युपनिषद सोऽधर्वशिरोधीदे ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्घैस्तुष्टुवागुंसस्तनूभिः व्यशेमदेवहृदयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्योरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधादु शान्ति शान्ति शान्तिः भावनोप भावनोपनिषत्सम्पूर्णा ओ